अटाध्याय के, के बाद एक प्रथम एशब्दान तमपौ तमपौ तमपौ तम पौ तमप तल तमपौ तर अजन्त वदे तस्मिन् तलप तमपौ जन्ताोभाज सरतमपोभा बहु गणवति संख्या ुभा बहु गण वसु दे सं बहु गण बहु गण बहु गण बहु गण बहु गण बहु गण बहु गण बहु गण बहु गण ख्या सङ्ख्या बहुगणवतुदति सङ्ख्या बहुगणवतुडति संख्या बहुगणवतुडति संख्या करप्तमव बहुगणवतुदति सङ्ख्या गण वा दुडति संख्या श्रान्ता ख्यालप्तब बहुगणवति दति सङ्ख्या शान्ता शब्दी च तर्तवति निष्ठा ष्ठतारुनिष्ठा जति चातानिष्ठा स्म दश जा शब्दुनिष्ठा सति च तत् तरुनिष्ठा बहु गण गति च निष्ठु नावचुनिष्ठा तात्रावचुनिष्ठानिष्ठ निष्ठा बहु गा वाता वा निष्ठा तागापुख बहु गाणा के संख्या शान्ता धी